मुप्तावद् दशकम् वामनावतारम् शक्रेण संयति कतोऽपि बलिर्महात्मा शुक्रेण जीविततनो क्रतुवर्तितोष्मा विक्रान्तिमान् भयनिलीन सुरान् चक्रमुकाधबीत पुत्रार्तिदर्शनवसा ददिर्विषण्णा तम् काश्यपम् निजपतिम् शरणम् प्रपन्ना त्वत्पूजनम् तदुदितम् शिवयो व्रदाख्यम् सा द्वादशाहमचर ्यामश्च दुर्भुजवपुः स्वयमाविरासे नम्राम् च तामिकभवत्तनयो भवेयम् गोप्यम् अतीक्षणमिते प्रलपन्नयासे त्वम् काश्यपे तपसि सन्निधतत्प्रधाने प्राप्तोऽसि गर्भमधिते प्रणुतो विदात्र प्रासूत च पुण्याश्रमम् तम विवर्षति पुष्पवर्षे हर्षाकुले सुरकुले कृतुदूर्यगोषे बद्माञ्जलिम् जय जयेति जये नु तत्पिध्रुव्याम् त्वम् तत्क्षणम् पटुतमम् वटुरूपमाध तावत् प्रजापतिमुखैरुपनीयमौञ्जी दण्डाजिनाक्षवलयादिभिरर्श्यमान दे दीप्यमान वपुरी त्वम् स्थिता बलिगृहम् प्रकृदाश्वमेतम् गात्रेण वाविमहिमोषितगौरवम् प्राक् व्यावृण्ववेदधरणीम् चलयन्न यासे चत्रम् परोष्मदिरणार्तमिवा दधानो दण्डम् च दानवजनेष्विव ताम् नर्मदोत्तरतटे हयमेतशाला आसेस्तुषि त्वयि रुचा तव किमेष दहुनो नु सनत्कुमारो योगीनुकोयमिति शुक्रमुकैशङ्के आनीतमा शुभ्रभृपेर्मकसाम् विभूते त्वाम् भक्त्या समेत्यशु कृते परिशिक्ष्यपादो धत्तोऽयमन्वधृतमूर्तनि तीर्थतीर्थम् प्रह्लादवंशजतया खदुभिर्दिजेषो विश्वासतोऽनुदतितम् दिति ज्ये बिलेबे यत् ते पदाम्बुकिरिचस्य चिरोभिलाल्यम् सत्त्वम् श्रीहरये नमः